मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं ट्वेण्टि फैव् शमीमन्दारवरप्रधानम् श्रीगणेशाय नमः दक्ष उवाच शमीमन्दारमाहात्म्यं वदमे करुणानिधे कधं विघ्नेश्वरस्यैव प्रियौ तौ सं बभूवधुः मुग्गल उवाच अौर्वो नाम भवद्विप्रश्रौतस्मार्तक्रियापरः स्वधर्मरतया पत्न्या ब्रह्मनिष्ठो महायशाः तयो कालेन संजादा पुत्री प्रभो तस्या नाम द्विजौ तौ दु शमीके दिप्रचक्रतुः सा कन्यारूपसंयुक्ता गुणयुक्ता प्रजापदे सप्तवर्षवयःसंस्था बभूव जनकप्रिया तदर्थं ब्राह्मणसोऽपि वरमिच्छन् समाययौ शौनकस्याश्रमं तत्र ददर्शमुनिसत्तमं पूजितः शौनकेनैव मन्दारं शिष्यमुत्तमं शौनकस्य ददर्श विद्याढ्यं धौम्यनन्दनं सुशीलं गुरुसेवायां निरदं निर्मलालसं हर्षयुक्तो भवत्तत्र मेने जामातरं हृदि विचार्य शौनकेनैव स्वगृहं प्रत्यपद्यत सुदिनेतं समानाय्य ददौ कन्यां महात्मने तेन युक्ता शमितत्र शुशुभे रूपसंयुता रत्नकाञ्चन योर्योगस्तथा जातः प्रजापदे पुनर्गदे कियत्काले यौवनस्थाम् विभाव्यताम् समीकां ससमानेतुं मन्तारप्रययौ स्वयम् तम् प्रपूज्य ददौ मौर्वो हर्षसमन्वितः मन्दारश्वरं नत्वा मार्गसंस्थो बभूवः कदा भ्रुशुण्डिनामायो गाणेशश्च महायशः विश्रान्तिमाश्रमे तस्य चक्रदुर्दम्पती परे स्वकाश्रमविहारार्थं भृशुण्डी सङ्गदो भवद तं दृष्ट्वा शुण्ठया युक्तं जहसतुश्च मूर्खवत् शुण्ठाया अपमानेन पापं प्राप्तं महाद्भुतं तेन सम्प्रेरितो योगी चुकोप चुकोपरक्तलोचनः उवाच तौ महायोगी भृशुण्डी च द्विजाधमौ दृष्ट्वा जहसधुशुण्ढां पादपौ भवतं रुषा शुण्डाया अपमानं यः करिष्यदि नराधमः समे शत्रुर्न सन्देहो गजास्यस्यापमानदः तौ तं भृशुण्डिनं प्रणे प्रणेमधुः सुदुःखितौ अज्ञानेन कृतं हास्यं क्षन्तुमर्हसि योगिप उच्चापं वद विप्रेश्य। दासौ तेनात्र संशयः अत्यन्तं गणराजस्य प्रियौ कुरु च मानद जगादमुनिसत्तमः शुण्डाया अपमानेन मया शक्तौ न संशयः अधः शुण्डाधरो प्रसन्नश्च भविष्यति तदा सर्वं शुभं पूर्णं युवयोर्वाञ्छितं भवेत् ममाधीनं न किञ्चिद्वै शापदादा गजाननः क्रोधहीनस्य मे क्रोधप्रेरितस्य समाययौ एवमुक्त्वा महायोगी स्वासनस्थो बभूवः तौसद्यो सद्यो वृक्षयो निष्ठौ बभूवधुः अधमाशेगदे गदे विप्रशौनकश्चिन्तयान्वितः शिष्यान् गृह्य ययौ विप्रमौर्वं दुःखान् महामुनिः तम्पप्रच्छशनैसोऽपि मन्दारः कुत्र वर्तते शमीकाया आनयने प्रेषितोऽयं मया सुधः ततस्तम् संयुक्तमौर्वो जगादविस्मिदः दत्त्वा कन्यां मया सद्य प्रेषितश्चत्वदन्तिके श्रुत्वैवं शोकसंयुक्ता और्वशौनकमुख्यकाः तयोः शोधनकामास्ते निःस्रुस्त्वरितास्तदः तत्र मार्गे जनान् सर्वान् ग्रामस्थान् वनसंस्थितान् पप्रचुस्ते समुचिस्तान् मासमात्राद् गतौ किल एवं विचार्यते यादा भ्रुशुण्ड्याश्रममुत्तमं तत्र विश्रान्तिकृत्स्थाने जनानां ददृशुस्तरु अनुपेदौ ततो ज्ञात्वा शौनकोध्यानमाश्रितः ज्ञात्वा भृशुण्डिनाशाब्दौ वृत्तान्तं तानवेदयद तद सर्वान् महायोगी विसृज्य तपसि स्थितौ शौनकौर्वौ महादुःखात् गणेशाराधनेरथौ अवायुभक्षभावेन ध्यानेन गणनायकं तोषया मास दुःप्रीत्या तयोरखविमुक्तये एवं द्वादशवर्षेषु गदेषु द्विरदाननः आयय्यौ तौ वरं दातुं भृशं तत्क्लेशतापितः दृष्ट्वा विघ्नेश्वरम् तौ दुःप्रणम्या पूज्य हर्षदः गणाध्यक्षम् तुष्टु वदुःप्रणम्य करसम्पुटैः शौन कौ वौ ऊचतुः नमस्ते गजवक्त्राय विघ्नेशाय परात्मने अपाराय महेशाय अरम्बाय नमो नमः संसारार्णवताराय मायामोहराय ते ब्रह्मेशाय शिवादिभ्यो योगदाय नमो नमः ज्येष्ठानां ज्येष्ठराजाय सर्वेषां पूज्यमूर्तये आदिपूज्याय देवाय चान्दस्ताय नमो नमः अनादये च सर्वेषां मात्रे पित्रे परात्मने स्वानन्दवासिने तुभ्यं गणेशाय नमो नमः शूर्पकर्णाय शूराय लम्बोदराय ढुण्ढये विघ्नकर्त्रे ह्य भक्तानां भक्तानां विघ्नहारिणे ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय योगेशाय सुशान्ताय शान्दिदाय नमो नमः गुणान्तं नयुर्यस्य शिवविष्णवादयो मराह योगिनः सगुणस्यापि निर्गुणस्यात्र का कथा नमो नमः प्रसन्नस्त्वं भव स्वामिन् गजानन धौम्यपुत्रं च मन्दारं शिष्यं मे तारयाधुना तारयस्वशमीं मौर्वकन्यां तां वृक्षयो निगदौ तौ दु कुरु तादृशौ भक्तिं ते हि हे रम्भययाभ्रान्तिर्विनश्यदि दासौ ते पादपद्मस्य वाञ्छिदं कुरु सर्वदा तयोर्वचनमाकर्ण्यजगादगणनायकः तौ भक्तौ तपसा युक्तौ भक्ति बद्धस्वभावदः श्रीगजानन उवाच भृशुण्डिना च विप्रर्षि शब्दौ तौ दम्पती पुरा ज्ञात्वा मदीयतुण्डस्यापमानान्नात्र संशयः भुषुण्डिनोदिभक्तस्य मम मिथ्या वजः कदा न करोमि महाभागौ देहादधिक एव सः भुषुण्डिनोपमानश्चक्रियदेविविधैर्जनैः न भवते मुनिसत्तमः मदीयमपमानं ससहतेन कदाचन अदोहं तस्य वाक्यं वै न करोमि निरर्थकं भवद्भ्यां तपसा बद्धः करिष्यामि हि तावकं वरं दास्यामि मुख्यकम् मन्दारस्य च शम्याश्च मूले स्थास्यामि निश्चलः मद्रूपौ वृक्षजातीनां सर्ववन्द्यौ भविष्यतः देवास्तौ प्रणमस्यन्ति किं पुनर्जन्तवो मदाः दर्शनात् स्पर्शनाच्चैव पापग्नौ तौ भविष्यदः मत्प्रियौ सर्वभावेन देवानां प्रियरूपिणौ भविष्यदो विशेषेण वृक्षराजौ महामुनि समीपत्रेण मां विप्रा पूजयिष्यन्ति मानवाः तेषां वाञ्छां सदाहं वै पूरयिष्यामि शाश्वतीं मन्तारपुष्पमेकं पुष्पमेकं मे नरः तेन हृष्टो भविष्यामि फलं दास्यामि वाञ्छितं कृता नानाविधा पूजा मदीया मानवेन च दुर्वाहीना वृथा सर्वा भवत्यत्र न संशयः अद्य प्रभृति विप्रेष्यौ शमीपत्रेण समर्पितं न देनैव तुल्यं तेभ्योधिकं मदं शमीपत्रेण सन्तुष्टो भविष्यामि निरन्तरं मन्दारपुष्पकेणैव को वदेत्तु तयोः फलं नित्यं शमीं नमेद्यस्तु पूजयेद्वादुः संस्पृशेत् स सप्तकुलसंयुक्तस्वानन्द मे गमिष्यति तथा मन्दारभृक्षं यो नमेत् सम्पूजयेन्नरः संस्पृशेत् सोऽपि स्वानन्दं व्रजेत् सप्तकुलैर्युतः प्रदक्षिणां प्रकुर्वीद शमीमन्तारवृक्षयोः सप्तद्वी भवदी पृथिव्या कृता तेन प्रदक्षिणा यदि भावेन वृक्षस्य प्रदक्षिणा कृता भवेद शतभूमिप्रदाक्षिण्य समं पुण्यं लभेन्नरः बहुनात्र किमुक्तेन मद्रूपौ वृक्षजादिषु तयोश्च महिमानं को भवेद्वर्णयितुं क्षमः वृक्षबुद्ध्या शमीं यो वै मन्दारं स नारकी नरो विप्रौ भविष्यदि न संशयः शमीं ननमेद्यो वीक्ष्य नराधमः दक्षिणां नैव नष्ट पुण्यो भवेत्तदा शमीं यश्चेदयेद्वापि मन्दारं मुनिसत्तमौ नरकेषु महापापीपदिष्यदिनसंशयः शाखां पत्रं तु यः पापी चेदयिष्यन्ति मानवः नारकी स भवेन्नूनं दर्शनात् पापदो भवेद् शमीं यो निन्दयेद्वायो मन्दारं वृक्षसत्तमं सर्वभाग्यविहीनः स नारकी जायते ततः मद्रूपेणैव मन्दारं शमीं यस्तु प्रपश्यति सभुक्त्वा विविधान् वी भोगानन्दे स्वानन्दगो भवेद मन्तारमूलमादाय मूर्तिं कृत्वा मदीकां पूजयिष्यन्ति मद्भक्तास्तेषां साध्योहमञ्जसा मन्तारमूलजा मूर्तिसद्यसिद्धिप्रदायिका तध्वन्यैवान्यसम्भूदा मम मूर्तिर्भविष्यति मन्दारमूर्तिगं पूजेत् शमीपत्रेण भावतः दुर्वा मन्दारपुष्पैश्च त्रयं सुदुर्लभं मदं शमीमन्दारदूर्वाश्च त्रयमेकत्र कारिदं भक्तेन सदुमत्तुल्यो पूजयां मे भविष्यदि शमी मन्दारजां मालां कृत्वा जपं समाचरेत् आनन्दफलभोक्दासौ भविष्यदि न संशयः शमी मन्दारजां मालां दधानः पुरुषो भवेद तस्य देकं समालोक्य विघ्नानश्यन्ति पापकाः अन्धे शमी भवं पत्रं मन्दारकुसुमं तथा दूर्वापत्रं धृतं येन धरिष्यति यमोनतं शमी मन्दारसामीप्ये पूजयेन च मानवः तेनाप्यसङ्ख्यका पूजा कृता मे नात्र संशयः येवमुक्त्वा पुनस्तौ स जगादगणनायकः मद्भक्तिं यदि विप्रेष विच्छथो भावसंयुतौ तदा मन्तारवृक्षस्य मूलजां मूर्तिमादराद कृत्वा पूजाम् प्रकुर्वाधाम् यथाविधि समन्वितौ शमीमन्तार दूर्वाभिसन्तुष्टोऽहम्भवामि तु नान्यथा पूर्णभावेन मम तुष्टिकरम् भवेद् तुलसीवर्जिताम् पूजाम् मदीयाम् कुरुतं सदा शमीमन्दरमालाभिर्जपं मे कुरुदं सदा एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत विप्रौ बभूवधुर्हर्षसमायुक्तौ विशेषतः ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शमीमन्दारवरप्रदानं नाम पञ्चविंशतितमोऽध्यायः ओ